श्रीमद्भागवत्पुराणं श्रीमद्भागवत् महात्म्यं पञ्चमोऽध्यायः हरिदासा उचुः श्रवणस्य विभेदेन फलभेदोऽत्र संस्थितः श्रवणं कृतं सर्वै न तथा मननं कृतं फलभेदस्ततो जातो भजनादपि मानद सप्तरात्रमुपोस्यैव प्रेतेन श्रवणं कृतं मननादि तथा तेन स्थिरचित्ते कृतं भृशम् अदृढं च हतं ज्ञानं प्रमादेन हतं श्रुतं सन्दिग्धो हि हतो मन्त्रो व्यग्रचित्तो हतो जपः अवैष्णवो हतो देशो हतं श्राद्धम् अपातृकम् हतं दानं अनाचारं हतं कुलम् विश्वासो गुरुवाक्येषु स्वस्मिन् दीनत्वभावनां मनो दोषजयश्चैव कथायां निश्चला मतिः एवमादि कृतं चेत् स्यात्तदा वै श्रवणे फलं पुनः श्रमान्ते सर्वेषां वैकुण्ठे वसतिर्ध्रुवम् गोकर्ण तव गोविन्दो गोलोकं दाशति स्वयम् एवमुक्त्वा यो सर्वे वैकुण्ठं हरिकीर्तलाः श्रावणे मासि गोकर्णकथामोचे तथा पुनः सप्तरात्रावतिं भूय श्रवणं तैः कृतं पुनः कथासमाप्तौ यज्जातं श्रूयतां तच्च नारद विमानैः सम्भक्तैः स हरिराविर्बभूवः जयशब्दा नमशब्दा तत्रासन बहुवस्तदा पाञ्चजन्यध्वनिं चक्रे हरसा तत्र स्वयं हरिः गोकर्णं तु समालिङ्ग्याकरोष्वं सदृशं हरिः श्रोतिन्यान् घनश्यामान् पीतकोशे वासस किरीटिन कुण्डलीनस्तां तथा चक्रे हरिक्षणात् तदग्रामे जेष्ठता जीवा आश्वडालजातय विमाने स्थापितास्तेऽपि गोकर्णकृपया तदा प्रेषिता हरिलोके ते यत्र गच्छन्ति योगिन गोकर्णेन स गोपालो गोलोकं गोपवल्लभम् कथाश्रवणतः प्रीतो निर्ययो भक्तवश्चलः अयोध्यावासिनः पूर्वं यथा संगताः तथा कृष्णेन ते नीता गोलोकं योगिदुर्लभं यत्र सूर्यस्य शोभस्य सिद्धानां न गति कदा तं लोकं हि गतास्ते तु श्रीमद्भागवतस्रवात् द्रुमोत्रते किं फलवृन्दुमुज्ज्वलं सप्ताहयज्ञेन कथाथ सञ्चितं कर्णेन गोकर्णकथाक्षरो यै पीतस्य ते गर्भगता न भूयः वाताम्बुपर्णाशनदेहशोषणैस्तपोभिरुग्रैचिरकालसञ्चितै योगैश्च संयान्ति न तां गतिं वै सप्ताहगाथाश्रवणेन यान्ति याम् इतिहासमिमं पुण्यं साण्डिल्योऽपि पुनेश्वर पठते चित्रकूटस्थो ब्रह्मानन्दपरिप्लुतः आख्यानमेतत्परमं पवित्रं सतं सकृद्वये विदिं हेदघोघं श्राद्धेपयुक्तं प्रतृतृप्तिमावहेन्नित्यं सुपाठादनपुनर्भवं च इति श्रीपन्मपुराणे उत्तरखण्डे श्रीभागवतमहात्म्ये गोकर्णमोक्षवर्णनं नाम पञ्चमोऽध्यायः